हरि ओम् श्री सीता रामचन्द्रभ्यः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे सप्तषष्ठीतमः सर्गः मार्कण्डीय प्रभृति मुनिभिः भी, मन्त्रिभिः च राजा मम्बिना देशस्य भाविनी दुरवस्थां वर्णयित्वा कमपि राजपते प्रतिष्ठापयितुं वसिष्ठम् प्रत्यनुरोध आक्रन्दिता निरानन्द शाह्र कंठ जन बिल अयोध्याता शर्वरी व्यतीतायां तो शर्व्याम आदि से उदहेत सर्ता सभा मीजात भाकंडेयोथ मौदल्यो वाम से कश्यप का नो गौतम जाबालिश महायश एक माप्य पृथ्गवाच मुदीरय वसीस्थम एवामुख श्रेष्ठ राजो अतीता शर्वरी दुखम या नो वर्ष शोपम अस्तमापने पुत्रशोक पार्थिव स्वर्गस्थ महाराजो रामश्चारण्यमाश्रितः लक्ष्मणश्चापि तेजस्वी रामेणैव गतस्थे उभौ शरथशत्रुघ्नौ केकयेषु परन्तपरो पुरे राजगृहे रम्ये मातामहे निवेशने इक्लाकोणाम् ह्याद्यैव कश्चिद्राजा विधीयताम् अराजकम् हि नो विनाशम् समवाप्नुयात् नाराजके जनपदे विद्युन्मालीमः सुनः अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा नाराजके जनपदे बीजमुष्टि प्रकीर्यते नाराजके पितुः पुत्र भार्या वा वर्तते वशे अराजके धनम् नास्ति नास्ति भार्याप्यराजके इदम् अप्याहितम् जान्य कुतः सत्यं राजके न राजके जनपदे कारयन्ति सभा नरः उद्यानानि च रम्याणि दुष्टा पुण्य गृहाणि च न राजके जनपदे यज्ञशील द्विजतयः सत्राण्यन्वासवेदान्तः ब्राह्मणा समुचित व्रतः नाराजके जनपदे महायज्ञेषु यज्वनः ब्राह्मणा वसु सम्पूर्णा विसृजन्त्याप्त दक्षिणः नाराजके जनपदे प्रवृष्ट नट नर्तकः उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धना नाराजके जनपदे सिद्धाखा व्यवहारिणः कथाभि अभिरज्यन्ते कथाशीला कथा, कथा, कथा प्रियै नाराजके जनपदे उद्यानानि समागतः सायन् क्रीडितुं यान्ति कुमारियो हेम भूषितः नाराजके जनपदे धनवन्त सुरक्षितः शेरते विवृत्तद्वारा कुशी गोराक्षजीविनः नाराजके जनपदे वाहने शीघ्रवाहिभिः नरा निर्यन्तर्यानि नारीभीतकामिनः नाराजके जनपदे बद्ध घण्टा विषाणिनः अटन्ती राजमार्गेषु कुञ्जरषष्ट्यायिनः नाराजके जनपदे शरां सन्ततमस्य धाम् श्रूयते तल निर्घोष इश्वस्राणामुपासने नाराजके जनपदे वणिजो दूरगामिनः गच्छन्ति क्षेममन्ध्वारम् बहुपण्य समार्चितः नाराजके जनपदे चरत्येक चरोवशी भावयन्नात्मनात्मानम् यत्र सायम् गृहमुनिः नाराजके जनपदे योगक्षेमा प्रवर्तते न चाप्यराजके सेन शत्रुन्विषहते युधि नाराजके जनपदे वृष्टैः रु, परमवाजिभिः नरासंज्ञान्ति स रथ च प्रतिमण्डितः नाराजके जनपदे नराशास्त्र विशारदाः संवदन्तोपतिष्ठन्ते वनेषु उपवनेषु वा नाराजके जनपदे माल्यमोदक दक्षिणः देवताभ्यस् च नाथाय कल्प्यन्ते नियतये नाराजके जनपदे चन्दना गुरुषिता राजपुत्रा विराजन्ते वसन्ते इवशाखिनह। यदा हि अनदका नद्यो यथावाप्य तृणम्बनम् स गोपाला यथा गाव तथा राष्ट्रम् अराजकम् धयोरथस्य प्रज्ञानम् धूमोर्यानम् विभावसो तेषाम् यो न रयो राजा तद्धैव त्वम् नाराजके जनपदे सकम् भवति कस्यचित् मस्याैव जना नित्यम् भक्षयन्ति परस्परम् ये हि सम्भिन्न मर्यादा नास्तिका छिन्नसंशयाः तेऽपि भावाय कल्पन्ते राजदण्ड निपीडिताः यथा दृष्टिः शरीरस्य नित्यम् एव प्रवर्तते तथा नरेन्द्रो राष्ट्रस्य प्रभव सत्य धर्मयोः त्यं च धर्मश्च राजा, राजा कुलेवतां कुलम् राजा माता पिता चैव राजा हि ते करोनुराम् यमो वै श्रवणः शक्रो वरुणश्च महाबलः विशेषन्ते नरेन्द्रेण वृत्तेन महता तथा अहोतमवेदं स्याम् न प्रज्ञायेत किञ्चन राजा चेन्न भवे लोके विभजन साध साधुनी जीवत्य महाराजे तवै वचनमे वेलाप्य सागर है न समीक्ष भृपमण्यूत कुसुतान्यम राजामिहायणे वाल्मीकि अधिकाव्य अभिध्या कण्डे सप्तषष्ठी नमः सर्ग है श्री सीतारामचन्द्रार्पण मास्तु